कृष्णयजुर्वेदे क्रमपाठे पञ्चमकाण्डे पञ्चमः प्रश्नः प्रारम्भः को रेकेन सग्स्थापयति सग्स्थापयति यज्ञस्य सग्स्थापयति संस्थापयति यज्ञस्य सन्तत्यै सन्तत्या अविच्छेदाय सन्तत्या इति सन्तत्यै अविच्छेदाय इन्द्राः अविच्छेदाय ऐन्द्राः पशवः पशवो ये ये मुष्कराःकरायतेन्द्राः ऐन्द्राः सन्तः सन्तोऽग्निभ्यः अग्निभ्यः आरभ्यन्ते अग्निभ्य इत्यग्निभ्यः आलभ्यन्ते देवताभ्यः आलभ्यन्त इत्यालभ्यन्ते देवताभ्यः समदम् समदम् दधाति समदमिति सामदम् प्रधात्याग्नेयैः आग्नेयैः स्रिष्टुभः द्रष्टुभो याज्ञानुवाक्याः कुर्यात् याज्ञानुवाक्या इति याज्ञा अनुवाक्याः कुर्याद्यत् यदाग्नेयीः आग्नेयैस्तेन तेनाग्नेयाः आग्नेयायत् यत् द्रष्टुभः द्रष्टुभस्तेन तेन इन्द्राः इन्द्रा समृद्ध्यै समृद्ध्यैन समृद्ध्या देवताभ्यः देवताभ्यः समदम् समदम् दधाति समदमिति सामदम् दधाति वायवे वायवे नियुत्वते नियुत्वते तू परम् नियुत्वते इति नियुत्वते तेजः तेजोऽग्नेः अग्नेर्वायुः वायुस्तेजसे तेजस एषः एषः आलभ्यते लभ्यते तस्मात् तस्माद्यद्रियङ् यद्रियङ् वायुः आयुर्वाति आदितद्रियङ् अव्यर्दहति स्वम् स्वमेव तत् तत्तेजः तेजो नो अन्वेति यद्यत् यन्न नियुत्तते नियुत्वते स्यात् नियुत्वत इति नियुक्तते स्यादत् उन्माद्येत् माद्येद्यजमानः यजमानो नियुत्वते भवति नियुत्वत इति नियुक्तते भवति यजमानस्य यजमानस्यानुन्मादाय अनुन्मादाय वा यमती अनुन्मादायेत्यनुमादाय वायुमतीश्वेतवती वायुमती इति वायुमती श्वेतवती याद्यानुवाक्ये श्वेतवती इति श्वेतावती याद्यानुवाक्ये भवतः याज्यानुवाक्ये इति याद्यानुवाक्ये भवतः सतेजस्त्वाय सतेजस्त्वाय हिरण्यगर्भः सतेजस्त्वायेति सतेजहात्त्वाय हिरण्यगर्भस्सम् हिरण्यगर्भ इति हिरण्यगर्भः समवर्तत अवर्तताग्रे अग्रयति इत्याघारम् आघारमा आघारमित्या आघारम् आघारयति घारयति प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वै हिरण्यगर्भः हिरण्यगर्भः प्रजापतेः हिरण्यगर्भ इति हिरण्यागर्भः प्रजापतेरनुरूपत्वाय सर्वाणि अनुरूपत्वायति अनुरूपत्वाय सर्वाणि वै एषः एषरूपाणि रूपाणि पशूनाम् पशूनाम् रति तव्यः आलभ्यते लभ्यते यत् यच्छ्मश्रुणः श्मश्रुणस्तत् तत्पुरुषाणाम् पुरुषाणागम् रूपम् रूपं यत् यत्तूपरः तूपरस्तत् दर्श्वानाम् अश्वानाङ्गत् यदन्यतो दन् अन्यतो दन्दत् अन्यतो दन्नित्यन्यतः दन् तद्गवाहम् गवाङ्गद् यदव्याः अव्या इव इव सफाः सफास्तद् तदवीनाम् अवीनाङ्गत् यदजः अजस्तत् अजानाम् वायुः वायुर्वै वैपशूनाम् पशूनाम् प्रियम् प्रियम् धाम धाम यत् यद यद्वायव्यः वायव्यो भवति भवत्येतम् एतमेव एवैनम् एनमभि अपि सञ्जानानाः सञ्जानाः पशवः सञ्जानाना इति सञ्जानाः पशव उप उपतिष्ठन्ते तिष्ठन्ते वायव्यः कार्या, कार्या। त्या प्राजापत्या प्रात्या इत्याहुः आहुर्यद् यद्वायव्यम् आयव्यम् कुर्यात् कुर्यात् प्रजापतेः प्रजापतेर्यात् प्रजापतेरति प्रजापतेः इराद्यद् यत्प्राजापत्यम् प्राजापत्यम् कुर्यात् प्राजापद्यमिति प्राजापत्यम् कुर्याद्वायोः वायोरियाद् इयाद्यद् यद्वायव्यः वायव्यः पशुः पशुर्भवति भवति तेन तेन वायोः वायोर्न मैति एति यत् यत्प्राजावत्यः प्राजापत्यः प्रोडाशः प्राजापत्य इति प्राजावत्यः तेन तेन प्रजापतेः प्रजापतेर्न प्रजापतेरिति नैति एतद् यद्वादशकपालः द्वादशकपालस्तेन द्वादशकपाल इति द्वादशाकपालः तेन वैश्वाधरात् वैश्वानरान्न नैति एत्याज्ञा वैष्णवम् आज्ञा वैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्याग्ना वैष्णवम् एकादशकपालम् निः एकादशकपालमित्येकादशाकपालम् निर्वपदि वपदितिक्षिष्यमाणः इतिष्यमाणोऽग्निः अग्निः सर्वाः सर्वा देवताः देवता विष्णुः देवता विष्णुर्यज्ञः यज्ञो देवताः देवताश्च चैव एव यज्ञम् यज्ञम् च सा अग्निरवमः अवमो देवतानाम् देवता विष्णुः विष्णुः परमः परमो यत् यदाज्ञावैष्णवम् आज्ञावैष्णवमेकादशकपालम् आज्ञावैष्णवमित्याज्ञावैष्णवम् एकादशकपालम् निर्वपति एकादशकपालमित्येकादशाकपालम् निर्वपतिदेवताः निर्वपतीति महीमपति देवता एव देवोभयदः उभयदः परिगृह्य परिगृह्य यजमानः परिगृह्येति परिगृह्य यजमानो वा अवरुन्धे रुन्धे प्ररोडाशेन देवाः देवा अमुष्मिन् अमुष्मिन्लोके लोकाध्रुवन् आर्ध्वन् चरुणाः चरुणास्मिन् अस्मिन् यः कामयेत तामये तामुष्मिन् अमुष्मिन्लोके लोकर्ध्नयाम् ऋध्नयामिति इति स पुरोडाशम् रोडाशम् कुर्वीत कुर्वीतामुष्मिन् अमुष्मिन्नेव एव लोके लोकरुध्नोति यदष्टागपालः अष्टागपालस्तेन अष्टागपाल इत्यष्टागपालः तेनाहाग्नेयःो यत् त्रिकपालः त्रिकपालस्तेन त्रिकपालयत्रिकपालः तेन वैष्णवः वैष्णवत्समृद्ध्यै समृद्ध्यै यः समृद्ध्या इति सामृद्ध्यै यः कामयेत दा, कामयेतास्मिन् अस्मिन् लोके लोकरुध्वयाम् ऋद्ध्वयामिति इति सः स चरुम् चरुम् गुर्वीद गुर्वीदाग्नेः अग्नेर्घृतम् घृतम् विष्णोः विष्णोःस्तण्डुलाः तण्डुलास्तस्मात् तस्माच्चरुः चरुः कार्यः कार्योऽस्मिन् अस्मिन्नेव एव लोके लोकरुध्वोति प्रद्मात्यादित्यः आदित्यो भवति भवतीयम् इयं वै वा अदितिः अदितिरस्याम् अस्यामेव एव प्रति प्रतिष्ठति तिष्ठत्यथोः अथो अस्याम् अथो विद्यथोः अस्यामेव एवाधि अधियज्ञम् यज्ञन्तनुते तनुथेयः यो वै वयि संवत्सरम् संवत्सरमुख्यम् संवत्सरमिति संवत्सरम् मोक्ष्यमभृत्वा अभृत्वा स्वामिगर्भः गर्भोपपपद्यते अपपद्यते तादृक् अपपद्यते इत्यपद्यते तादृगेव एव तत् तदार्तिम् आर्तिमा आर्च्छेद् पृच्छेद्वैश्वादरम् वैश्वादरम् द्वादशकपालम् द्वादशपालम् पुरस्ताद् द्वादशकपालमिति द्वादशाकपालम् पुरस्ताग्निः निर्पपेद् पपेत् संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः यथा यथा संवत्सरम् संवत्सरमा संवत्सरमिति संवत्सरम् आप्त्वा काले काल आगते आगते विजायते एवमेव एव संवत्सरम् संवत्सरमात्वा संवत्सरमिति संवत्सरम् आत्वा काले काल आगते आगते अग्निम् आर्तिमा आर्च्छति यत्सत्येषा एषा वै वा अग्नेः अग्नेः प्रिया प्रिया तनोः तनो यत् यद्वैश्वानरः प्रियाम् प्रियामेव एवास्य तस्य तनुवम् तनुवमव अवरुन्धे रुन्धे त्रीणि त्रीण्येतानि एतानि हवीगुंषि हवीगुंषि भवन्ति भवन्ति त्रयः त्रय इमे इमे लोकाः लोका येषाम् येषाम् लोकानाम् लोकानाम् रोहाय रोहायै प्रजापतिः प्रजाः प्रजापतिरति प्रजापतिः प्रजाः सृष्ट्वा प्रजायति प्राजाः सृष्ट्वा प्रेणा प्रेणा नो अलप्रा प्राविशत् अविषत्ताभ्यः ताभ्यः पुनः पुनःसम्भवितुम् सम्भवितुम् न सम्भवितुमिति सम्भवितुम् नाशक्नोत् अशक्नोत्सः सोऽब्रवीत् अब्रवीद्रद्धवत् रद्धवदिद् यत्सः स्वयः व्योमाः मेतः पुनः पुनः सञ्चिनवत् सञ्चिनवदिति तञ्चिनवदिति सम् चिनवत् विदितम् देवाः देवाः सम् समचिन्वन् वैते त आर्ध्वमन् आर्ध्वनयद् यत् समचिन्वन् समचिन्वन्तत् समचिन्वन्निति सम् नचिन्वन् तच्चित्यस्य चित्यस्य चित्यत्वम् चित्यत्वम् यः चित्यत्वमिति चित्यात्वम् यदेवम् विद्वान् विद्वानग्निम् अग्निम् चिनुदे चिनुदर्ध्नोति कस्मैकम् कमग्निः अग्निश्चीयते श्रीरैरि इत्याहुः आहुरग्निवान् अण्डिवानसानि अण्डिवानित्यग्नीवान् रसानीति वै वा अग्निः अग्निश्चीयते चीयते अग्निवान् अण्डिवानेव अण्डिवानित्यग्नीवान् एव भवति भवति कस्मै कस्मैकम् कमग्निः अग्निश्चीयते श्रीरैरि इत्याहुः आहुर्देवाः देवामाह देवा मा वेदन् वेदन्निति इति वै वा अग्निः अग्निश्चीयते श्रीयते विदुः विदुरेनम् एनम् देवाः देवाः कस्मैः कस्मैकम् कमग्निः अग्निश्चीयते श्रीयते इति इत्याहुः गृह्यसानि असानीति इति वै वा अग्निः अग्निश्चीयते श्रीयते गृही गृह्येव एव भवति भवति कस्मैः अनिश्चीयते चीयत इति इत्याहुः आहुः पशुमान् पशुमानसानि पशुमानिति पशुमान् रसानीति इति वै वा अग्निः अन्निश्चीयते चीयते पशुमान् पशुमानेव पशुमानिति एव भवति भवति कस्मै कस्मैकम् कमग्निः अनिश्चीयते चीयत इति सप्त सप्तमाः मा पुरुषाः पुरुषापजीवान् जीवानिति इति वै वा अग्निश्चीयते चीयते त्रयः त्रयः प्राञ्चः प्राञ्चस्त्रयः त्रयः प्रत्यञ्चः प्रत्यञ्च आत्मा आत्मा सप्तमः सप्तम एतावन्तः एतावन्त एवैनम् एनमुष्मिन् अमुष्मिन्लोके मुष्ण। लोक उप उपजीवन्ति जीवन्ति प्रजापतिः प्रजापतिरग्निम् प्रजापतिरिति प्रजापतिः अग्निमचिकीषत अचिकीषत तम् तम् पृथिवी पृथिव्यब्रवीत् अब्रवीन्न मयि मय्यग्निम् अग्निम् चेष्यसे चेष्यसेति अतिमा मा, मा धक्ष्यति सा, धक्ष्यति सा सा त्वातिदह्यमाना प्रतिदह्यमानापि प्रतिदह्यमानेत्यपि दक्ष्यमाना विधविष्ये भविष्ये भविष्यसि भविष्यसीति इति सः सोऽब्रवीत् अब्रवीत् तथा तथा वा अहम् आँ, अहम् करिष्यामि यथा त्वा त्वा न अतिधक्ष्यतीति अधिधक्ष्यतीत्यधक्ष्यति इति सः स इमाम् इमामभि अभ्यमिषत् अमुषत्प्रजापतिः प्रजापतिस्त्वा प्रजापतिरत्प्रजापतिः त्वा साधयतु साधयतु तया तया देवतया देवतयाङ्गिरस्वत् अङ्गिरस्वद्ध्रुवा ध्रुवा सीद सीदेति इतीमाम् इमामेव एवेष्टकाम् इष्टकाम् कृत्वा कृत्वोप उपाधत्त अधत्तानचिदाहाय अनतिदाहायेत् अनदिदाहायेत्यनतीदाहाय यत्प्रति प्रत्यग्निम् अग्निम् चिह्त चिह्मीत तत् तदभि अभिमृषेत् मृषेत् प्रजापतिः प्रजापतिस्त्वा प्रजापतिप्रजापतिः स्वा साधयतु साधयतु तया तया देवतया देवतयाङ्गिरस्वत् अङ्गिरस्वद्धुवा ध्रुवा सीद सीदेति इमामेव एवेष्टकाम् इष्टकाम् कृत्वा कृत्वोप उपधत्ते धत्तेनचिदाहाय अनदिदाहाय प्रजापतिः अनचिदाहाय जनभिहाय प्रजापतिरकामयत प्रजापतिरति प्रजापतिः अकामयदप्रजायेय जयेति इति सह स एतम् एतमुख्यम् मुख्यमपश्यत् अपश्यर्थम् तम् संवत्सरम् संवत्सरमपिभव संवत्सरमिति संवत्सरम् अपि भस्ततः सप्र प्राजायत प्रजायत तस्मात् तस्मात्संवत्सरम् संवत्सरम् भार्यः संवत्सरमिति संवत्सरम् भार्यः प्रैव एव जायते जायते तम् तम् वसवः वसवो प्रत्वं अब्रुवन् प्र त्वम् त्वमजनिष्ठाः अजनिष्ठा वयम् वयम् प्रजायामहि जायामः इति निजितम् तम् वसुभ्यः वसुभ्यः प्र असुभ्य इति वसुभ्यः त्रीण्यहानिभरो अभिभस्तेन तेन त्रीणि त्रीणि च शतानि शतान्यसुचन्द्र असु चन्द्र त्रयस्त्रिगंशतम् त्रयस्त्रिकंशतम् च त्रयस्त्रिकंशतमिति त्रयः त्रिगंशतम् च तस्मात् तस्मात् त्र्यहम् त्र्यहम् भार्यः त्रिहमिति त्र्यहम् एव जायते जायते तान् रुद्राः रुद्रा अब्रुवन् अब्रुवन् प्रयूयम् यूयमजनिध्वम् वयम् प्रजायामहि जायामः इति निदितम् तगम् रुद्रेभ्यः रुद्रेभ्यः प्र प्रायच्छनन् अयच्छन्दम् त्वं षट् षडहानि अह अन्यबिभुरुः अभिभुरस्तेन तेन त्रीणि त्रीणि च त्रिशतानि शतान्यसृजन्द असृजन्द त्रयस्त्रिगंशतम् च त्रयः त्रिगंशतम् च तस्मात् तस्माच्छडहम् षडहम् भार्यः षडहमिति षट् अहम् भार्यः एवजायते रायते तान् तानादित्याः आदित्या अब्रुवन् अब्रुवन् प्र यूयन् वयम् वयम् प्रजायामहि धायामः इति तमादित्येभ्यः आदित्येभ्यः प्र प्रायच्छन् प्रयच्छन्तम् तन् द्वादश द्वादशाहानि अहान्यबिभरुः त्रिशतानि शतान्यसृजन्त असृजन्द त्रयस्त्रिकंशतम् त्रयस्त्रिकंशतम् च त्रयस्त्रिकंशतमिति त्रयः त्रिगुंशतम् च तस्मात् तस्माद् द्वादशाहम् द्वादशाहम् भार्यः द्वादशाहमिति द्वादशाहम् भार्यः प्रयैव एव जायते जायते तेन तेन वै वैते ते सहस्रम् सहस्रमसृजन्त असृजन्तोखा मुखाकुंसहस्रतमीम् सहस्रतमीङ्गः सहस्रतमीमिति एवम् एवमुख्यम् उक्षनुम् सहस्रम् साहस्रम् वेद वेदप्रसहस्रम् सहस्रम् पशून् औशूर, पशूना आप्नोति आप्नोतीत्या आप्नोति यदुषा वै वा एषा एषा क्रियते क्रियते ऋदुषा पच्यते पृच्छ्यते ऋदुषा विमुच्यते मुच्यते यत् यदुखा मुखा सा एषा एषैतर्हि एतर्हि यातया अम्नी जातयाम्नीति जातायाम्नी सा न पुनः पुनः प्रयुज्याः प्रयुज्येति प्रयुज्येति प्रायुज्याः इत्याहुः राहुरग्नेः अग्ने युक्ष्व युक्ष्वाहि हि ये तव तव युक्ष्व युक्ष्वाहि हि इति देवहूतमानि च इत्युखायाम् मुखायाम् जुहोति जुहोति तेनैव एवैनाम् एनाम् पुनः पुनः प्रयुङ्क्ते युङ्क्ते तेन एनाजातयाम्नी अजातयाम्नी यः अजातयाम्नीत्यजातयाम्नी यो वै वा अग्निम् अग्नियोगे योगागते आगते युनक्ति आगत इत्यागते युनक्ति युङ्क्ते युङ्क्ते अग्ने युक्ष्व युक्ष्वाहि किये ये तव तव युक्ष्व युक्ष्वाहि इदेव होतमान् देवहूतमानीति देवहूतमानिति देवहूतमान् इत्याह आदेशः एषु वा अग्नेः अग्नेर्योगः योगस्तेन तेनैव एवैनम् युङ्क्ते युङ्क्ते जुञ्जानेषु युञ्जानेषु ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति ञ्यङ्ः अनिश्चेतव्या उत्ताना उत्ताना इति उत्ताना इत्युत् ताना इति वयसाम् वयसाम् वै पा एष प्रतिमया प्रतिमया चीयते प्रतिमये प्रतिमया चीयते यदग्निः अग्निर्यद् यण्यञ्जम् यञ्जम् चिनुयात् चिनुयात् प्रष्टितः प्रष्टितः एनम् एनमाहुदयः आहुदयरुेयुः आहुदय इत्याहृदयः ऋच्छेयुर्यद् यदुत्तानम् उत्तानम् न उत्तानमित्यनम् न पथितुम् पथितुम् शक्नुयात् शक्नुयादसुभर्ग्यः अस्य स्यात् स्यात्प्राचीनम् प्राचीनमुत्थानम् उत्थानम् पुरुषशीर्षम् उत्थानमित्युदोत्तानम् पुरुषशीर्षमुप पुरुषशीर्षमिति पुरुषशीर्षम् उपदधाति दधातिमुखदः मुखत एव एवेनम् एनमाहुदयः आहुदय पृच्छन्ति आहुदय इत्याहृदयः पृच्छन्ति उत्तानम् चिनुते उत्तानमित्युत् दानम् चिनुते स्वर्ग्यः स्वर्ग्योः अस्य स्वर्ग इति सुभाग्यः अस्य भवति भवतिसौर्या सौर्याजुहोति विहोतिचक्षुः चक्षुरेव एवास्मिन् अस्मिन्प्रति प्रतिदधादि दधादि द्विः द्विर्जुहोति जुहोदि द्वे द्वे हि हि चक्षुषी चक्षुषी समान्या चक्षुषी इति चक्षुषी समान्याजुहोति विहोति समानम् समानगुंहि चक्षुः चक्षुः समृद्धि समृद्धि देवासुराः समृद्ध्या इति समृद्धिः देवासुराः संयत्ताः देवासुरा इति देवासुराः संयत्ता आसन् देवासुरा, संयत्ता इति संयत्ताः आसन् ते ते वामम् वसु असु संसन्नि न्यदधत अदधत तद्देवाः देवा वामभृताः वामभृतावृञ्जत वामभृतेति वामाभृताः अभृञ्जत तद्वामभृतः वामभृतो वामभृत्वम् वामभृत इति वामाभृतः वामभृत्वम् यत् वामभृत्वमिति उपदधाति वामम् उपदधाति इत्युपादधाति वाममेव एव तया तया वसौ असु यजमानः यजमानो भ्रातृव्यस्य भ्रातृल्यस्य वृन्दे वृन्दे हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि भवति हिरण्यमूर्ध्नीति वै हिरण्यम् हिरण्यम् ज्योतिः ज्योतिर्वामम् वामम् ज्योतिषा ज्योतिषैव एवास्य अस्य ज्योतिः ज्योतिर्वामम् वामम् वृन्दे वृन्दे द्वियजुः द्वियजुर्भवति द्वियजुरिति द्विजुः भवति प्रतिष्ठित्या इति प्रतिष्ठित्यैः आपो वरुणस्य वरुणस्य पुत्रयः अत्रय आसन् आसन्दाः ता अग्निरभि अभ्यध्यायत् अध्यायत्ताः ताः सम् समभवत् अभवत्तस्य तस्य वेतः ये गः पराः परापतत् अपदत्तत् तदियम् इयमभवत् अभवद्यत् द्वितीयम् परापतत् परापतत्तत् परापतदिति परापतत् तदसौ असावभवत् अभवदियम् इयम् वै वै विराट् विराडसौ असौ स्वराड् स्वराढ्य स्वराडिति स्वराड् यद्विराजौ विराजा उपदधाति विराजापिति वीराजौ उपदधाति इमे उपदधातीत्युपादधाति इमे एव इमे इतीमे एवोप उपधत्ते धत्ते यत् यद्वै वा असौ असौ रेतः रेतः सिञ्चति सिञ्चति यत् तदस्याम् तस्याम् तिष्ठति यत् तत्प्रजायते जायरेताः ता ओषधयः ओषधयो वीरुधः वीरुधो भवन्ति अवन्दिताः ता अग्निः अग्निरत्ति प्रत्ययः य एवम् वेद वेदप्रैव एव जायते जायतेऽन्नादः अन्नादो भवति अन्नाद इत्यन्नादः भवदयः यो रेतस्वी रेतस्वी स्यात् स्यात्प्रथमायाम् प्रथमायान्दस्य तस्य नित्याम् चित्यामुभे उभे, उभे उप उभे इत्युभे उपदध्याद् दध्यादिमे इमे एव इमे इदिमे एवास्मै तस्मै समीची समीचीरेतः समीची इति समीची एतः सिञ्चदः सिञ्चतो यः यः सिक्तरेताः सिक्तरेदा इति सिक्ता रेताः स्यात् प्रथमायाम् प्रथमायां दस्य तस्य रीत्याम् सित्यामन्याम् अन्यामुप उपदध्यात् द्यादुत्तमायाम् उत्तमायामन्याम् उत्तमायामित्युतोत्तमायाम् अन्यागम् रेतः रेत एव तस्य सिक्तम् सिक्तमाभ्याम् आभ्यामुभयतः उभयतः परि परिगृह्णाति गृह्णाति संवत्सरम् संवत्सरम् न संवत्सरमिति संवत्सरम् न कम् कञ्चन क्षणप्रत्यवरोहेत् प्रत्यवरोहेन्न प्रत्यवरोहेदिहे न इमे इमेकम् इमे इतीमे कञ्चन क्षणप्रत्यवरोहतः प्रत्यवरोहदस्तत् प्रत्यवरोहत यदि प्रति अवरोहतः तदेनयोः येनयोर्व्रतम् व्रतञः यो वै वा अपशीर्षाणम् अपशीर्षाणमग्निम् अपशीर्षाणमित्यवा शीर्षाणम् अग्निम् इनुगेऽपशीर्षा अपशीर्षामुष्मिन् अपशीर्षेद्यपाशीर्षा अमुष्मिल्लोके लोके भवति भोदियः यः सशीर्षाणम् सशीर्षाणम् जिनुदे सशीर्षाणमितिसा शीर्षाणम् सशीर्षा सशीर्षामुष्मिन् सशीर्षेदिसा शीर्षा अमुष्मिन्लोके लोके भवति भोधिचित्तिम् चित्तिम् जुहोमि जुहोमि मनसा मनसा घृतेन घृतेन यथा देवाः देवा इहागमन् आगमन् वीतिहोवत्राः आगमन्नित्या आगमन् वीतिहोवत्रा ऋतावृतः वीतिहोवत्रा इति वीतिहोत्राः ऋतावृतः समुद्रस्य वृतावृत इत्यतावृतः समुद्रस्य वजुनस्य वजुनस्य पत्मन् पत्मन् जुहोमि जुहोमि विश्वकर्मणे विश्वकर्मणे विश्वाः विश्वकर्मण इति विश्वाकर्मणे विश्वाहा अहमर्त्यम् हविः हविरिति इति स्वयमादृन्नाम् स्वयमादृणामुपधाय स्वयमादृणामिति स्वयम् आदृणाम् उपधाय जुहोति उपधायुपाधाय जहोत्येतत् एतद्वै वा अग्नेः अग्नेः शिरः शिरः सशीर्षाणम् स्वशीर्षाणमेव अग्निञ्जिनुते चिनुते सशीर्षा सशीर्षामस्मिन् सशीर्षेति स शीर्षाः अमस्मिन् लोके लोके भवति भवति यः एवम् एवम् वेद वेदस्वर्गाय स्वर्गाय स्वर्गायैति स्वभागाय वा एषः एष लोकाय लोकाय चीयते क्षीयते यत् यदग्निः अग्निस्तस्य तस्येत् यदयथापूर्वम् अयथापूर्वम् क्रियते अयथापूर्वमित्ययथापूर्वम् क्रियते सुवर्ग्यम् असुवर्ग्यमस्य असुवर्गमित्यसमहाग्यम् अस्य तत् तत्सुवर्ग्यः स्वर्ग्योः अग्निः स्वर्ग्य इति सुभाग्यः अग्निश्चितिम् ुपाय अभिमृषे पृष्ठा पृष्ठेवर्तान् राजे राजे चत्याय स्वपत्याय देव स्वपत्यायेति सोपत्याय देवनितिम् चरास्व रास्वादितिम् अदितिमृष्य मृष्येति इति यथा यथा पूर्वमेव यथा पूर्वमिति यथा पूर्वम् एवैनाम् एनामुप उपधद्धे दधे प्राञ्चम् प्राञ्चमेन चिनुते चिनुते स्वर्ग्यः स्वर्ग्योऽस्य स्वर्ग इति सुभाग्यः अस्य भवति भवतीति भवति विश्वकर्मा विश्वकर्मेति विश्वाकर्मा विषाम् पतिः पतिः सः स नः नः पशून् पशून् पातु पातु सः सोऽस्मान् अस्मान् <explosions> पातु, नम पातु पातु तस्मै तस्मै नमः नमः प्रजापतिः प्रजापतिरुद्रः प्रजापतिरुदिप्रजापतिः रुद्रो वरुणः वरुणोऽग्निः अन्यर्दिशाम् दिशाम् पतिः पतिः सः स नः नः पशून् सः सोऽस्मान् अस्मान् पातु पातु तस्मै तस्मै नमः नम एताः हेता वै वै देवताः देवता एतेषाम् एतेषाम् पशूनाम् पशूनामधिपतयः अधिपतयस्ताभ्यः अधिपतय इत्यधिपतयः ताभ्यो वै वा एषः एष आवृष्यते वृष्यते यः यः हिरण्येष्टकाः उपदधातीत्युपादधाति हिरण्येष्टका उप हिरण्येष्टका इति हिरण्य इष्टकाः उपदधाति तथात्येताभ्यः एव देवताभ्यः देवताभ्यो नमः नमस्करोति करोति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्त्यग्नौ अग्नौ ग्राम्यान् ग्राम्यान् पशून् पशून् प्र प्रदधाति दधातिशुता तर्पयति किम् किम् ततः तदवत् उच्छिकुंसति शिगुंसतीति इति यत् यद्धिरण्येष्टकाः हिरण्येष्टका उपदधाति हिरण्येष्टका इति हिरण्य इष्टकाः उपदधात्यमृतम् उपदधातीत्युपादधाति अमृतम् वै वै हिरण्यम् हिरण्यमृतेन अमृतेनैव एव ग्राम्येभ्यः ग्राम्येभ्यः पशुभ्यः पशुभ्यो भेषजम् पशुभ्य पशुभ्यः भेषजम् करोति करोति नैनानि एनानि हिनस्ति हिनस्ति प्राणः प्राणो वै प्राणः वै प्रथमा प्रथमा स्वयमातृन्ना स्वयमातृन्ना व्यानः स्वयमातृणेति स्वयम् मातृणा व्यानो द्वितीयाः व्यान इति वि अनः तृतीयापानः अपानस्तृतीयाः अपानैत्यपानः तृतीयालो नुप्राण्यात् अन्यात्प्रथमाम् प्रथमाय स्वयमातॄर्णाम् स्वयमादृणामुपधाय स्वयमादॄर्णामिति स्वयम् मातॄणाम् उपधाय प्राणेन उपधायत्युपाधाय प्राणेनैव प्राणेनेति प्राणेन एव प्राणम् प्राणपुंसम् प्राणमिति प्राणम् समर्धयति अर्धयति वि यन्यात् अन्याद्वितीयाम् द्वितीयामुपधाय उपधाय व्यानेन उपधायेत्युपाधाय व्यानेनैव व्यानेनेति वि अनेन एव व्यानम् ज्ञानगुंसम् ज्यानमिति वि अनम् समर्धयति अर्धयत्यप अपान्यात् अन्यात्तृतीयाम् तृतीयामुपधाय उपधायापानेन उपधायेत्युपाधाय उपानेनैव अपानेनेत्यप अनेन एवापानम् उपानपुंसम् अपानमित्यपाहनम् समर्धयति अर्धयत्यथोः अथो प्राणैः अथो इत्यथोः प्राणैरेव प्राणैरि प्राणैः एवैलम् येन पुंसम् समिन्धे भूर्भुवः भुवः सुवः सुवदिति इति स्वयमातृणाः स्वयमादृण्णा उप स्वयमातृण्णा इति स्वयम् मातृण्णाः उपदधाति दधातिमे इमे वै वै लोकाः लोकाः स्वयमातृणाः स्वयमातृण्णा एताभिः स्वयमातृण्णा इति स्वयम् मातृण्णाः एताभिः खलु खलु वै व्याहृदेवभिः व्याहृदेवभिः प्रजापतिः व्याहृतेभिर्दिव्याहृदेवभिः प्रजापतिः प्रा प्रजापतिरिति प्रजापतिः प्राजायत प्रजायतयत् यदेताभिः एताभिर्व्याहृतेभिः व्याहृदेवभिः स्वयमातृण्णाः व्याहृतेभिर्दिव्याहृदेवभिः स्वयमातृण्णा उपदधाति स्वयमातृण्णा इति स्वयम् मातृण्णाः उपदधाति इमान् उपदधाति इत्युपादधाति इमानेव एव लोकान् लोकानुप्रधाय उपधायिषुप्रधायेत्युपधाय एषु लोकेषु लोकेष्वधि प्रधिप्रजायते जायते प्राणाय प्राणाय व्यानाय प्राणायेति प्राणाय यानायपानाय जानायेति वि अपानाय वाचे अपानायेत्यपानाय वाचे त्वाः ताचक्षुषे चक्षुषे त्वा त्वातयाः तया देवतया अङ्गिरस्वध्रुवा ध्रुवा सीद सीताग्निनाः अग्निना वै वै देवाः देवाः सुवर्गम् सुवर्णम् लोकम् सुवर्णमिति सुभागम् लोकमजिकागुंसन् अजिगागुंसन्तेन तेन पतितुम् पतितुम् न नाशक्नुवन् न शक्नुवन्ते त एताः एताश्चतस्रः शतस्रस्वयमातृन्नाः स्वयमादृण्णा अपश्यन् स्वयमादृणा इति स्वयम् इक्षूप उपादधत अदधत तेन तेन सर्वतश्चक्षुषा सर्वतश्चक्षुषा सुवर्गम् सर्वतश्चक्षुषेति सर्वतः चक्षुषाः सुवर्गम् लोकम् सुवर्गमिति सुबभागम् लोकमायन् चतस्रः स्वयमातृन्नाः स्वयमातृण्णा इक्षु स्वयमातृन्ना इति स्वयम् मातृण्णाः इक्षोपदधाति उपदधाति सर्वतश्चक्षुषा सर्वतश्चक्षुषेति सर्वतः चक्षुषाः एव तत् तदग्निना अग्निना यजमानः यजमानः स्वर्गम् लोकमेति एतीत्येति अग्ना आयाहि याहि वीतये वीतय इति इत्याह आहाह्वद अह्वदैव एवैनम् एनमग्निम् अग्निम् इत्याह आहूत्वा होत् होत्वैव एवैनम् एनम् वृणीतेः वृणीते अग्निना अग्निनाग्निः अग्निः सम् समिध्यते युध्यत इति इत्याह आहसम् समिन्धे इन्ध एवैनम् एनमग्निः अग्निर्वृत्राणि वृत्राणि जङ्घनत् जङ्घनदिति इत्याह आहसमिध्ये समिद्ध एव समिद्ध दधाति दधात्यग्नेः अग्ने स्तोमम् स्तोमम् मनामहे मनामह इति इत्याह आह मनुते मनुत एवैनुम् एनमेतानि एतानि वै वा अह्नाम् अह्नाकुम् रूपाणि रूपाण्यन्वहम् अन्वहमेव अन्वहमित्यनो अहम् एवैनुम् एनम् चिनुते चिनुतेव वाह्नाम् अह्नाकुम् रूपाणि रूपाणि रुन्धे रुन्धे ब्रह्मवादिनः ब्रह्मवादिनो ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्माद् कस्मात् सत्यात् सत्याद्यातयाम्नीः यातयाम्निरन्याः यातयानीरिति यातायाम्नीः अन्या इष्टकाः इष्टका अयातयाम्नी अयातयाम्नी लोकम् वृणा अयातयाम्नीत्ययातायाम्निः लोकम् वृणेति लोकम् वृणेति लोकम् वृणा इत्यीन्द्राग्मी अयीन्द्राग्नीः ऐन्द्राग्नीत्यईन्द्राग्नि वारृहस्पत्या वारहस्पत्येति इति ब्रूयात् ब्रूयादिन्द्राग्नी इन्द्राग्नी च इन्द्राग्नी इति इन्द्राग्नि हि हि देवानाम् देवानाम् बृहस्पतिः बृहस्पतिश्च चायातयामानः अयातयामानोऽनुचरवती अयातयामान इत्यादायामानः अनुचरवती भवति अनुचरवतीत्यनुचरावती भवत्यजामित्वाय अजामित्वायानष्टुभाः अजामित्वायेत्यजामि त्वाया अनष्टुभानु अनष्टुभेत्यनोऽस्तुभाः अनुचरति चरत्यात्मा आत्मा वै वै लोकम् रा लोकम् राणः लोकम्भृण इति लोकम् रा प्राणोऽनष्टुप् प्राण इति प्राणः अन्रष्टुप्तस्मात् अनष्टुभेत्यनोऽस्तु तस्मात् प्राणः प्राणः सर्वाणि प्राणः सर्वाण्यङ्गानि अङ्गान्यनु अनुचलति चलतिताः ता अस्य अस्य सूददोहसः सूददोहसरि सूददोहसरिति सूदादोहसः इत्याह आहतस्मात् तस्मात् परुषिपरुषि परुषिपरुषिरसः परुषिपरुषीति परुषि परुषि रसः सोमम् सोमन्ति श्रीणन्ति श्रीणन्ति प्रश्नयः कृष्णय इति इत्याह आहान्नम् अन्नम् वै वै पृश्नि कृष्ण्यन्नम् अन्नमेव एवाव अवरुन्धे रुन्धेऽर्कः अर्को वै वा अग्निः अग्निरर्कः अर्कोऽन्नम् अन्नमन्नम् अन्नमेव एवाव अवरुन्धे रुन्धे जन्मन् जन्मन् देवानाम् देवानाम् भिशा, विषः रोचने रोचने दिवः दि इत्याह हे वा हेमान् इमामेव एवास्मै अस्मै लोकान् लोकान् ज्योतिष्मतः ज्योतिष्मतः करोति करोति यः यो वै वा इष्टकानाम् इष्टकानाम् प्रतिष्ठाम् प्रतिष्ठाम् वेद प्रतिष्ठाविधिप्रतिष्ठाम् वेदप्रति प्रत्येव एवतिष्ठति इष्टया तया देवतया देवतयाङ्गिरसद् अङ्गिरसध्रुवा ध्रुवा सीद सीदेति इत्याह आहैषा एषा वै वा इष्टकानाम् इष्टकानाम् प्रतिष्ठा प्रतिष्ठा यः प्रतिष्ठेलुप्रतिस्था य वेद वेदप्रति प्रत्येव एव तिष्ठति तिष्ठतीति तिष्ठति स्वर्गाय वै स्वर्गाय इति स्वभागाय वा एषः एष लोकाय लोकाय चीयते चीयते यद् यदग्निः अग्निर्वज्रः वज्र एकादशिनीः एकादशिनी अग्नावेकादशिनीम् एकादशिनीम् विनयाद् विनयाद्वज्रेण वृद्रेणैनम् येन पुंस्वर्गाद् स्वर्गाल्लोकात् स्वर्गादिति सुभागात् लोकादन्तः अन्तर्दध्यात् दध्याद् यन्न अमिलुगात् मिलुगात् स्वरुभिः स्वरुभिः पशून् स्वरभिरितिस्वरुभिः पशून्वि व्यर्धयेत् अर्धयेदेकरूपम् एकरूपम् विनोति एकरूपमित्येका रूपम् विनोति नैनम् स्वर्गाल्लोकात् स्वर्गादिति सुभागात् लोकादन्तर्दधाति अन्तर्दधाति न अन्तर्दधातीत्यन्तः दधाति नः स्वरुभिः स्वरभिः पशून् स्वरुभिरितिस्वरुभिः पशून् वि व्यर्धयति अर्धयति वि युवै वा एषः एष इन्द्रियेण इन्द्रियेण वीर्येण वीर्येण अध्यते अर्ध्यते यः योऽग्निम् अग्निम् चिन्वन् चिन्वन्नधिक्रामति अधिक्रामदेत्यधिक्रामति ऐन्द्रियर्चा द्विचाक्रमणम् आक्रमणम् प्रति आक्रमणमित्या आक्रमणम् प्रतिष्टकाम् इष्टगामुप उपदुध्यात् दुध्यान्न नेन्द्रियेण इन्द्रियेण वीर्येण वीर्येण विभ्यते युध्यते रुद्रः रुद्रो वै वा एषः एष यत् तस्य तिस्रः तिस्रः श्रव्याः प्रतीचीः प्रतीचीतिरश्ची तिरश्चनूची अनूचीताभ्यः ताभ्यो वै वा एषः एष आ वृष्यते वृष्यते यः योऽग्निम् अग्निम् चिनुते चिनुतेग्म् अग्निम् चित्वा चित्वा तिसृधन्वम् तिसृधन्वमयाचितम् तिसृधन्वमिति तिसृधन्वम् अयाचितम् ब्राह्मणाय ब्राह्मणाय दद्याद् दद्यात्ताभ्यः ताभ्य एव नमः नमस्करोति करोत्यथो अथोताभ्यः अथो इत्यथो ताभ्य एव एवात्मानम् आत्मानम् हि निष्क्रीणीते क्रीणीते ते रुद्रा रुद्रपुरः पुरोधनुः धनस्तत् तद्वातः वाथो अनु अनुवाद मातुतेः ते तस्मै तस्मै ते रुद्र रुद्रसंवत्सरेण संवत्सरेण नमः संवत्सरेणेति संवत्सरेण नमस्करोमि करोमि यत् यत्तेः ते रुद्रा रुद्रदक्षिणा दक्षिणाधनुः धनुस्तत् तद्वादः वातो अनु अनुवाद मातुते ते तस्मै तस्मै ते ते रुद्र रुद्रपरिवत्सरेण परिवत्सरेण नमः परिवत्सरेणेति परिवत्सरेण नमस्करोमि करोमि यत् वृत्ते ते रुद्रा रुद्रपश्चात् पश्चाद्धनुः धनुस्तत् तद्वादः वातो अनु अनुवादौ वादुते ते तस्मै ते ते रुद्रा रुद्रेदावत्सरेण इदावत्सरेण नमः नमस्करोमि करोमि यद् यत्ते रुद्र रुद्रोत्तरात् उत्तराद्धनुः उत्तरादित्युदुत्तरा तद्वातः वाचो अनु अनुवादो वादुते तस्मै तस्मै ते ते रुद्रा रुद्रेदुवत्सरेण इदवत्सरेण नमः इदवत्सरेण इति वत्सरेण नमस्करोमि करोमि यद् यत्ते ते रुद्र रुद्रोपरि उपरि धनुः धनस्तद्वातः वातो अनु अनुवातो मातुतेः ते तस्मै तस्मै ते ते रुद्र रुद्रवत्सरेण वत्सरेण नमः नमस्करोमि करोमि रुद्रः रुद्रो वै वा एषः सह स यथा यथाह व्याघ्रः व्याघ्रः क्रुद्धः रुद्धस्तिष्ठति तिष्ठत्येवम् एवम् एष एतर्हितरिः सञ्चितम् सञ्चितमेतैः सञ्चितमिति सञ्चितम् एतैरुप उपतिष्ठते तिष्ठते नमस्कारैः नमस्कारैरेव नमस्कारैरिति नमः कारैः एवैनम् येन किम् शमयति ये येणयः अग्नयः पुरीष्याः पुरेष्याः प्रविष्टाः प्रविष्टाः पृथिवीम् प्रविष्टा इति प्राविष्टाः ेषाम् त्वम् तपसि अस्युत्तमः उत्तमः प्र उत्तम इत्युत्तमः प्रणः नो जीवातवे जीवातवे स्ववेदि स्व आपन्त्वा त्वाग्ने अग्ने मनसा मनसापम् आपन्त्वाग्ने अग्ने तपसा तपसापम् आपन्त्वा त्वाग्ने अग्ने दीक्षया दीक्षयापम् आपन्त्वा त्वाग्ने अग्न उपसद्भिः उपसद्भिरापम् उपसद्भिरित्युपसद्भिः आवन्द्वा त्वाग्नेः अग्ने सुकिला सुलापम् आवन्द्वा अग्ने दक्षिणाभिः दक्षिणाभिरापम् आवन्द्वा त्वाग्नेः अग्ने वभृतेन अपकृसेनापम् अपकृसेनेत्यवभृतेन आवन्द्वा त्वाग्नेः अग्ने वशयाः अशयापम् आवन्द्वा त्वाग्नेः अग्नेः सुखाकारेण सुखाकारेणेति सुखाकारेणेति सुखाकारेण इत्याह आहैषा शा, एषा वै वा अग्नेः अग्नेराग्निः आप्तिस्तया आप अयैव आप एवैनम् एनमाप्नोति आप्नोति आप्नोति आयत्रेण पुरस्तात् पुरस्तादुप उपतिष्ठते तिष्ठते प्राणम् प्राणमेव प्राणम् एवास्मिन् अस्मिन् दधाति लृहाति बृहद्रसुन्दराभ्याम् बृहद्रसुन्दराभ्याम् रक्षौ बृहद्रसुन्दराभ्यामिति बृहदृसुन्दराभ्याम् रक्षाभोजः भोज एव एवास्मिन् अस्मिन् दधाति दृहास्थायज्ञायज्ञयेन ऋतुस्थायज्ञायज्ञेन पुच्छम् एव प्रति प्रतिष्ठति तिष्ठति पृष्ठैः पृष्ठैरुपा उपतिष्ठते तिष्ठते तेजः रेजो वै वै पृष्ठानि पृष्ठानि तेजः तेज एव एवास्मिन् अस्मिन् दधाति दधाति प्रजापतिः प्रजापतिरग्निम् प्रजापतिरजित्प्रजापतिः अग्निमसृजत असृजतसः सोऽस्मात् अस्मात्सृष्टः वारवन्तीजेन अवारयत वारवन्तीजेनेति वारा वन्दीजेन अवारयत तद्वारवन्दीयस्य वारवन्तीयस्य वारवन्तीयत्वम् वारवन्तीयस्येति वारा वन्दीयस्य वारवन्तीगत्वद्यशैतेन वारवन्तीगत्वमिति वारवन्तीगत्वम् शीलेन शेती शेती अकुरुत अकुरुत तद् तच्छैदस्य शीलस्य शीतत्वम् शीदत्वम् यत् श्रीलत्वमिति शीलत्वम् वारवन्तीजेनोपतिष्ठते वारवन्तीजेनेति वारवन्तीजेन उपतिष्ठते वारयते उपतिष्ठत इत्युपतिष्ठते वारयत एवैनम् येन शीतेन शीतेन शेती शेतीकृते कृते प्रजाकृतेन प्रजापते हृदयेणापि पक्षम् अपिपक्षम् प्रति अभिपक्षमित्यपि पक्षम् प्रत्युप उपतिष्ठते तिष्ठते प्रेमाणम् प्रेमाणमेव एवा, एवास्य तस्य गच्छति गच्छति प्राच्या प्राच्या त्वा दिशा दिशा साधयामि साधयामि गायत्रेण गायत्रेण अग्निना देवतया देवतयाग्नेः अग्नेः शीर्ष्णा शीर्ष्णाग्नेः अग्नेः शिरमुप उपदधामि दधामि दक्षिणया दक्षिणया त्वा त्वादिशा दिशासादयामि दिशा साधयामि त्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसेन्द्रेण इन्द्रेण देवतया देवतयाग्नेः देवत दे अग्नेः पक्षेण पक्षेणाग्नेः अग्नेः पक्षम् पक्षमुप उपदधामि दधामि प्रतीच्याः प्रतीच्याः त्वा त्वा त्वादिशा निशा सादयामि साधयामि जागतेन छन्दसा समित्रा सवित्रा देवतया देवतया अग्नेः अग्नेः पुच्छेन पुच्छेनाग्नेः अग्नेः पुच्छम् पुच्छम् वा उपदधामि दधाम्युदि इच्छा युदि इच्छा त्वा त्वा दिशा दिशा साधयामि साधयाम्यानुष्टुभेन अनुष्टुफेन छन्दसा अनुष्टुफेनेत्यानौस्तुभेन छन्दसा मित्रावरुणाभ्याम् मित्रावरणाभ्याम् देवतया मित्रावर्णाभ्यामिति मित्रावर्णाभ्याम् देवतयाग्नेः पक्षेण पक्षेणाग्नेः अग्नेः पक्षम् पक्षमुप उपदधामि दधाम्यूर्ध्वया ऊर्ध्वया दिशा साधयामि साधयामि पाङ्तेन पाङ्तेन छन्दसा छन्दसा बृहस्पतिना बृहस्पतिना देवतया देवतयाग्नेः अग्नेः पृष्ठेन पृष्ठेनाग्नेः अग्नेः पृष्ठम् पृष्ठमुप उपदधामि दधामि यः यो वै वा अपा आत्मानम् अपा आत्मानमग्निम् अपा आत्मानमित्यप आत्मानम् अग्निम् चिनुते चिनुते पा आत्मा अपा आत्मामुष्मिन् अपात्मेत्यप आत्मा अमुष्मिल्लोके लोके भवति भवति यः यः सात्मानम् सात्मानम् चिनुते सात्मानमिति सा आत्मानम् चिनुते सात्मा सात्मानुष्मिन् साद्मेति सा आत्मा अमुष्मिन्लोके लोके भवति भवत्यात्मेष्टकाः आत्मेष्टका उप आत्मेष्टका इत्यात्मा इष्टकाः उपदधाति दधात्येषः एष वा अग्नेः अग्नेरात्मा आत्मा सात्मानम् सात्मानमेव सात्मानमिति सा आत्मानम् एवाग्निम् अग्निम् चिनते सात्मा अमुष्मिन् साद्मेति सा आत्मा अमुष्मिन् लोके लोके भवति भवति यः य एवम् एवम् वेद वेदेति वेद अग्नबुदधे उदधेया उदधैत्युदाैषुः इषु युवा जीवा, युवा नाम नामतया गजानः नो मृड मृदस्याः तस्यास्ते नमः नमस्तस्याः तस्यास्ते त उप उपजीवन्तः जीवन्तो भूयास्म भूयास्माग्ने अग्ने दुध्र दुध्रगह्य कह्यकिगुंशिल किगुंशिलवन्यया याते थयिषु इषुर्युवा युवा नाम नामतया दयानः मृड मृडतस्याः तस्यास्ते थे नमः नमस्तस्याः तस्यास्ते तोप उपजीवन्तः जीवन्तो भूयास्म भूयास्म पञ्च पञ्चवै उपायेते एते अग्नयः अग्नयो यत् चितयः चितय उदधिः उदधिरेव उदधिरित्युदाधिः एव नाम नाम प्रथमः द्वितीयः द्वितीयो गह्यः यह्यस्तृतीयः तृतीयः किमुं शिलः किमुं अन्यः पञ्चमः पञ्चमस्तेभ्यः तेभ्यो यत् यदाहुतीः आहुतीर्न आहुतिरित्याहुतिः जुहयादध्वर्यम् अध्वर्यम् च स यजमानम् यजमानम् चप्रदहेयुः चा। यहेयुर्यद् यदेताः एता आहुतीःहोरि आहुतिरित्याहुतिः जुहरिभागधेजेन भागधेजेनैव भागधेजेनेति भागधेयेन देवैनान् भाग दे भाग एनान् शमयति दे, शमयति न आर्तिमा आर्च्छति पृच्छत्यध्वर्युः अध्वर्यर्ण न यजमानः यजमानो वाग् वाङ्मे आसन् आसन्नसोः रसोः प्राणः प्राणोः क्षयोः प्राण इति प्राणः अक्षोश्चक्षुः चक्षुः कर्णयोः कर्णयोः श्रोत्रम् श्रोत्रम् बाह्वोः बाह्वोर्बलम् बलमूर्वोः ऊर्वोरोजः ओजोऽरिष्टा अरिष्टा विश्वानि विश्वान्यङ्गानि अङ्गानि तनोः तनोस्तुनुवा तुनुवा मे मे सः सः नमः नमस्ते ये अस्तु अस्तु मा मा हिवंसीः हिंसीरव अभवै वा एतस्मात् एतस्मात् प्राणाः प्राणाः क्रामन्ति प्राणा इति प्राणाः क्रामन्त्यः योऽग्निम् अग्निम् चिन्वन् चिन्वन्नधिक्रामति अधिक्रामतिवार् अधिक्रामतेत्यधिक्रामति वाङ्मे मा आसन् आसन्नसोः नसोः प्राणः प्राण प्राण इति प्राणः इत्याह आह प्राणान् प्राणानेव प्राणानिति प्राणान् एवात्मन् आत्मन् आत्मन यो रुद्रः रुद्रो अग्नौ अग्नौ यः यो अप्सु अप्सु यः अप्सिद्यपोसु यवोषधीषु ओषधीषु यः यो रुद्रः रुद्रो विश्वाः विश्वाभुवना भुवना विवेश आविवेशदस्मैः आविवेशेत्या आविवेश तस्मै रुद्राय रुद्राय नमः नमो असो अस्वाहुतिभागाः आहुतिभागा वै आहुतिभागा इत्याहुते भागाः वा अन्ये अन्ये रुद्राः रुद्राहविर्भागाः हविर्भागा अन्ये हविर्भागा इति हविः भागाः अन्ये शतरुद्रीयम् शतरुद्रीयम् हृत्वा शतरुद्रीयमिति शतारुद्रियम् हृत्वा गावेधुकम् एतेन ईदुषा ईदुषा च रमायाम् रमायामिष्टकायाम् इष्टकायान्नि निदध्यात् यद्ध्याद्भागधेयेन भागधेयेनैव भागधेयेनेति भागाधेयेन एवैनम् एनकम् शमयति शमयितस्य तस्य तु त्वयि त्वै शतर्द्रियम् शतर्द्रियकम् हुतम् शतर्द्रियमिति शतार्द्रियम् हुतमिति इत्याहुः आहुर्यस्य यस्य एतत् एतदण्णौ अण्णौ क्रियते क्रियत इति वसवः वसवस्त्वा रुद्रैः रुद्रैः पुरस्ताद् पुरस्तात्पान्तु पान्तु पितरः पितरस्त्वा तायमराजानः यमराजानः पितृभिः यमराजानः इति यमाराजानः पितृभिर्दक्षिणतः पितृभिरिति पितृभिः दक्षिणतः पान्तु पान्त्वादित्याः आदित्या स्वाः त्वाविश्वैः विश्वैर्देवैः देवैः स्पश्चाद् पश्चात्पान्तु मारम् तद्युतानः द्युतानस्त्वा द्यतान त्वा मारुतः मारुतो मरुद्भिः मरुद्भिरुत्तरतः मरुद्भिरिति मरुद्भिः उत्तरतः पादौ उत्तरत इत्युक्त तरदः पातु देवाः देवास्त्वा अधस्ताच्च चोपरिष्टाद् उपरिष्टाच्च तपान्तु पान्तु न वै एतेन एतेन पूतः पूतो न न मेध्यः मेध्यो न प्रोक्षितः प्रोक्षितो यत् प्रोक्षितैरिति प्रावोक्षितः यदेन मतः अतः प्राचीनम् यत् प्रोक्षतीति प्रावक्षति यत्सञ्चितम् सञ्चितमाद्येन सञ्चितमिति संचितम् आद्येन तेन पूतः भूतस्तेन तेन मेध्यः मेध्यस्तेन तेन प्रोक्षितः प्रोक्षितै प्रोक्षितः समीचीनाम नामासि असिप्राची प्राचीतस्याः तस्यास्ते ते अग्निरधिपतिः अधिपतिरचितः अधिपतिरित्यधेपतिः असितो रक्षिता रक्षितायः यश्च चाधिपतिः अधिपतिश्च अधिपतिरित्यधेपतिः यश्च चगोक्ता गोप्ताभ्याम् ता ताभ्याम् नमः नमस्तौ तौनः नो लृडयताहम् लृयताम् ते ते यम् यं, इयम् विष्मः विष्मोयः यश्च चकः नोद्वेष्टि तं, द्वेष्टितम् तम् माम् वाञ्जुम्भे ओजस्विनी नाम नामासि रचिदक्षिणा दक्षिणादिकलिक्तस्याः तस्यास्ते तदिन्द्रः इन्द्रोऽधिपतिः अधिपतिः प्रदागुः अधिपतिरित्यधेपतिः प्रदाकुः प्राची प्राचीनाम नामाझि असिप्रदेचीः प्रतीचीदिगदिक्तस्याः तस्यास्ते ते सोमः सोमोऽधिपतिः अधिपतिः <ड़िए> स्वजः अधिपतिरित्यधेपतिः सुजोऽवस्थावा स्वजैतिस्वाजः अवस्थावा नाम अवस्थावेत्यवास्थावाः नामाधि अस्युदीची तस्यास्ते ते धिपतिः अधिपतिश्चिरश्च राजिः अधिपतिरित्यधेपतिः तिरश्च राजिरधिपद्निः तिरश्च राजिरितिरश्च राजिः अधिपद्नी नाम अभिवृह्त्यधेपत्नीः नामासि तस्यास्ते ते बृहस्पतिः बृहस्पतिरधिपतिः अधिपतिश्ट्रः अधिपतिरित्यधेपतिः श्रुत्रो वशिनीः वशिनी नाम नामासि तस्यास्ते हे यमः यमोऽधिपतिः अधिपतिः कल्माषग्रीवः अधिपतिरित्यधीपतिः कल्माषग्रीवो रक्षिता कल्माषग्रीव इति रक्षितायः यश्च चाधिपतिः अधिपतिर्यः अधिपतिरित्यधिपतिः यश्च च गोप्ता गोप्ताभ्याम् नमः नमस्तौ तौ नः नो नृयताम् नृयतान्ते यम् यन्विष्मः विष्मो यः यश्च च नः मम द्वेष्टि द्वेष्टितम् तम्वाहम् ताञ्जुम्भे जुम्भे दुधामि देवताः देवता अग्निम् अग्निञ्चितम् चितकुं रक्षन्ति रक्षन्ति ताभ्यः आभ्यो यद् यदाहुतीः आहुतीर्म आहुतीरित्याहुतिः न जुहूयाद् जुहूयादध्वर्यम् अध्वर्यम् ध्यायेजुहिर् यदेताः एता आहुतीः आहुतिर्जुहोरि आहुतीरित्याहुतिः जुहोतिभागधेयेन भागधेजेनैव भागधेजेनेतिभागधेयेन भाग एवैनानि येनान् शमयति शमयति न नार्तिम् ना, आर्तिमा आर्च्छति पृच्छत्यध्वर्युः तध्वर्युर्न न यजमानो हेतयः हेतयो नाम नामस्थ स्थ तेषाम् वः पुरः पुरोगृहाः गृहा अग्निः अग्निर्वः वैषवः इषभः सलिलः सलिलोदिलिम्बाः इलिम्पा नाम स्थदेशाम् तेषा अम्बः दक्षिणा दक्षिणागृहाः गृहाः पितरः पितरो वः वैषभः इषवः सगरः सगरो स्थदेशाम् तेषा अम्बः पश्चाद्गृहाः गृहास्वप्नः स्वप्नो वः वैषवः इषपो गह्वरः गह्वरोऽवस्थावानः अवस्थावानो नाम अवस्थावानैत्यवस्थावानः नामस्थ स्थलेषाम् तेषाम् वः उत्तराद् उत्तराद्गृहाः उत्तरादित्युतो दलाद् गृहा आपः आपो वः वैषवः इषपः समुद्रः समुद्रोऽधिपतयः अधिपतयो नाम अधिपतय इत्यधिपतयः नामस्थ स्थतेषाम् तेषाम्बः व उपरि उपरि गृहाः गृहावर्षम् वर्षम्भः वैषवः इषवो वस्वान् अवस्वान्क्रव्याः क्रव्या नाम नामस्थ स्थपार्थिवाः पार्थिवास्तेषाम् तेषाम्बः व इह इह गृहाः गृहान्नम् अन्नम्बः वैषवः इषभो निमिषः निमिषो वातनामम् निमिष वातनाममिति वाता नाम तेभ्यो वः गोनः न मास्ते तेनः नो मृडयत मृडयतते तेयम् यम् विष्मः विष्मोयः यश्च शमः ममोद्वेष्टि द्वेष्टितम् तम्बः भोजम्भेः जम्भे दधामि दधामि हुतादः हुतादो वै हुतादैति हुता, हुता, हुता, हुता अदः वा अन्ये अन्ये देवाः देवा, देवा अहुतादः अहृतादोऽन्ये अहृतादैत्यहुतादः अन्येतान् तान् अग्निचित् अग्निचिदेव अग्निचिदिति अग्नीचित् एवोभयान् उभयान् प्रीणाति प्रीणाति दद्ध्वा दद्ध्वा मधुमिश्रेण मधुमिश्रेणैताः मधुमिश्रेणेति मधुमिश्रेण एताहुजीः आहुतीर्जुहोति आहुतीरित्याहुतीः जुहोति भागधेयेन भागधेयेनैव भागधेयेन एवैनान् एनान् प्रीणाति प्रीणात्यथोः तथो खलु अथो इत्यथोः खल्वाहो राहुरिष्टकाः इष्टका वै वै देवाः देवा अहुतादः अहुतादैरि अहुतादैत्यहुतादः इत्यनुपरिक्रामम्क्रामम् जुहोतिक्राम इत्यनु परिक्रामम्परिवर्गम् अपरिवर्गमेव अपरिवर्गमित्यपरिवर्गम् एवैनान् एनान् प्रीणादि प्रीणातीमम् इमग्रस्तनम् सरमूर्जः सन्दम् ऊर्जःसन्दम् धया तयापाम् अपाम् प्रप्यातम् प्रप्यातमग्नेः प्रप्यातमिति प्राप्यातम् शरीरस्य शरीरस्य मध्ये मध्ये उत्सञ्जुषस्व जुषस्व मधुमन्दम् मधुमन्दमोर्व मधुमन्तमिति मधुमन्तम् ऊर्वसमुद्रियम् समुद्रियकम् सदनमा वा विशस्व विशस्वेति वा अग्निम् अग्निम् प्रयुज्य प्रयुज्य न मुञ्चति विमुञ्चति यथा विमुञ्चतीति विमुञ्चति यथाश्वः अश्वो युक्तः युक्तोविमुच्यमानः अविमुच्यमान् वा क्षुध्यन् अविमुच्यमान इत्यविमुच्यमानः क्षुध्यन् परा भवति परा भवत्येवम् परा भवतीति परा भवति एवमस्य तस्याग्निः अग्निः पराः परा भवति भवतिदम् तम् परा भवन्तम् राभवन्तम् यजमानः राभवन्तमिति परा भवन्तम् यजमानो नु परा भवति सोऽग्निम् अग्निम् चित्वा चित्वा लूक्षः लोक्षो भवति भवतीमम् इमग्निस्तनम् स्तनमूर्जस्वन्तम् ऊर्जस्वन्तम् धया दयापाम् अपामिति इत्याद्यस्य आद्यस्य पूर्णाम् पूर्णाग्सृजम् सृजम् जोति भवत्येषः एष वै वा अग्नेः अग्नेर्विमोकः विमोकविमुच्य विमोकः विमुच्यैव विमुच्यैति विमुच्य एवास्मै अस्मा अन्नमपि अपि दधाति दधाति तस्मात् तस्मादाहोः आहुर्यः यश्चैवम् एवम् वेद वेदयः यश्च क्षण असुधायम् सुदाय सुधायगम्ह सुधायमिति सुधायम् ह वै सुहितः सुहिरो दधाति सोहितः दधातीति इत्यग्निः अग्निर्वाव वाववाजी वाजी, वाजी तमेव एव तत् तत्प्रीणाति प्रीणाति सः स एनम् एनम् प्रीतः प्रीतः प्रीणाति प्रीणाति वसीयान् वसीयान् भवति भवतीति भवति इन्द्राजराज्ञेः राज्ञे सूखरः सूखरोपरुणाय परुणाजराज्ञेः राज्ञे कृष्णः कृष्णायमाय यमाजराज्ञेः राज्ञवृष्यः ऋष्यऋषभाय ऋषभाजराज्ञेः राज्ञे अभयः तृणशार्दुराज शार्दूराजराज्ञेः राज्ञे गौरः गौरः पुरुषराजाय पुरुषराजाय मर्कटः पुरुषराजाय यदि पुरुष राजाय मर्कटः क्षिप्रश्येनस्य क्षिप्रश्येनस्य वर्तिका क्षिप्रश्येनस्य यदि क्षिप्राश्रयस्य वर्तिका नीलङ्गोः नीलङ्गोः कृमिः कृमिः सोमस्य सोमस्य राज्ञः राज्ञः कुलुङ्गः कुलुङ्गः सिन्धोः सिन्धोः शिपुंशुमारः शिवुंशुमारो हिमवतः हिमवतो हस्ती हिमवत इति हिमावतः हस्तीति हस्ती मजुष्प्रापृत्यः प्राजावद्य ऊलः प्राजावद्य इति प्राजावृत्यः ऊलो हली ईक्ष्णः हलीईक्ष्णो वृषदनुंशः वृषदगुंशस्ते शारिश्येता शेतापुरुषवाग्पुरुषवाक्सरस्वते पुरुषवागिति पुरुषावाग् सरस्वते शुकः त्रिवश्येतः शेतः पुरुषवाग् पुरुषवागारन्यः पुरुषवागिति पुरुषावागण्योजः अजो न कुलः नकुलः शकाः शकाते ते पौष्णाः पौष्णावाचे वाचे क्रौञ्चः क्रौञ्च इति क्रौञ्चः अपान्नप्त्रे नप्रे ऋषः ऋषो नाक्रः नाक्रो मकरः मकरः कुलीकजः कुलीकजस्ये एकोपारस्य अकूपारस्य वाचे वाचे पयिङ्गराजः पयिङ्गराजो भगाय पयिङ्गराज इति पयिङ्गाराजः कुशीदक आदी आदीवाहसः वाहसो दर्विदा दर्विदा ते ते वायव्याः वायव्यादिभ्यः दीर्घ्यश्चक्रवाकः दिग्धैति दिग्भ्यः चक्रवाकैति चक्रवाकः बलायाजगरः अजगर आखुः आखुःसृजया सृजया शयण्डकः मृत्यवेसितः असितो मन्यवे मन्यवे सुजः सुजः कुम्भेन सह सज इति स्वाजः कुम्भेन सह पुष्करसादः लोहिताहिस्ते लोहिताहिरिति लोहितारिः रेष्ट्राः त्वाष्ट्राः प्रतिश्रुत्कायै प्रतिश्रुत्कायै पुरुषमृगश्चन्द्रमसे पुरुषमृग चन्द्रमसे गोधा गोधा कालका कालका दारुवाघाटः दारवाघाटस्ते दारवाघाट इति दारुवाघातः ते वनस्पतीनाम् वनस्पतीनामेणी एण्यह्नेः अह्ने कृष्णः कृष्णो रात्र्यै रात्र्यै पिकः पिकः क्ष्काः क्ष्का नीलशीर्ष्णि नीलशीर्ष्णी नीलशीर्ष्णीति नीलाशीर्ष्णिः ते एर्यम्णे अर्यम्णे धातुः धातुः सौरीबलाकाः बलाकर्षः बला ऋष्य मयूरः मयूरः शेनः शेनस्ते ते गन्धर्वाणाम् गन्धर्वाणाम् वसूनाम् वसूनाम् कपिञ्जलः कपिञ्जलोरुद्राणाम् रुद्राणाम् तिरिः तित्तिरी रोहित् रोहित् कुण्भृणाची अप्सरसामरण्याय कुण का, अरण्याय स्रवरः स्रवर इति समरः ईश्वरदेवः वैईश्वदेवः पित्रः वैष्वदेव इति वैश्वादेवः पित्त्वाऽन्यङ्गुः ण्यङ्गुः कषः कश्रे ते अनुमत्यै अनुमत्या अन्यवापः अनुमत्या इत्यनो मत्यै अन्यवापोः अर्धमासानाम् अन्यवाप इत्यन्यावापः अर्धमासानाम् मासाम् अर्धमासानामित्यर्धा मासानाम् मासाम् कर्षपः कर्ष्यपः क्वय वैः कुटरुः कुटरुर्दात्यौह ते श्रीबाल्ये श्रीवाल्यी बृहस्पतये बृहस्पतये षित्पुटः शित्पुट इति षित्पुटः शका भूमि भूमिपान्तः पान्त्रः कृशः कृषोपान्थीलवः पान्थीलवस्ते ते पितृणाम् पितृणामृतूनाम् ऋतूनाम् जहगा जहगा संवत्सराय संवत्सराय लोपाः संवत्सराय इति संवत्सराय लोपाकपोतः कपोतकुलूकः उलूगः शशः शशस्ते ते नैरवृताः नैरृता इति नैः लताः कृकलाकुः सा वित्रः सा वित्र इति सा वित्रः रुरुद्रः रौद्रः कृकलासः कृतवासः शकुनिः शकुनिः पिप्पका पिप्पका ते हरिणः हरिणो मारुतः मारुतो ब्रह्मणे ब्रह्मणे शार्गः तरक्षः कृष्णः कृष्णश्वा शाचतरक्षः चतुरक्षो गर्दभः चतुरक्ष इति चतुरक्षः गर्दभस्ते तरितरजनानाम् इतरजनानामग् इतरजनानामितीतराजनानाम् अग्नये धूङ्क्ष्णाः धूङ्क्ष्णे तिधूङ्क्ष्णाः अलजान्तरिक्षः आन्तरिक्षरुद्रः रुद्रो मद्गुः मद्गुः प्लवः प्लवस्ते ते पाम् अपामदित्यै अदित्यै अगुम्ससाचिः अगुम् ससाचरिन्द्राण्ये अगुम् ससाचरिति हगुंससा साचिः इन्द्राण्ये गीरशाः कीरशा कृध्रः गृध्रश्यति कक्षी श्रितिकक्षी वाध्राणसः क्षितिकक्षीति श्रितिकक्षी पार्ध्राणसस्ते हे दिव्याः दिव्या द्यावापृथिव्याः द्यावापृथिव्याः श्वावित् द्यावापृथिव्येति द्यावापृथिव्याः सोपर्णः पार्जन्यो हृपुंसः हृपुंसो वृकः वृको वृषदपुंशः वृषदपुंशस्ते ह ऐन्द्राः ऐन्द्रापाम् अपारुद्रः रुद्रो अर्जम्णे पर्यम्णे लोपाशः लोपाशः सिगुम्भः सिगुम्भो व्याघ्रस्ते हे महेन्द्राय महेन्द्राय कामाय महेन्द्राय इति महेन्द्राय कृष्णग्रीवः कृष्णग्रीवः सारस्वती कृष्णग्रीव इति कृष्णाग्रीवः सारस्वती महेषी महेषी औष्णः श्यामः श्यामः श्रुतिपृष्ठः श्रुतिपृष्ठो बालहस्पत्यः श्रुतिपृष्ठ इति श्रुतिपृष्टः बालहस्पत्यः शिल्पः शिल्पो वैईश्वदेवः वैश्वदेव ऐन्द्रः वैश्वदेव इति वैश्वदेवः ऐन्द्रोरुणः अरुणो मारुतः मारुदः कल्माषः कल्माष ऐन्द्राग्नः ऐन्द्राग्नः सकंहितः ऐन्द्राग्न इत्यैन्द्रा अग्नः सगुंहितोऽधो रामः सगुंहित इति संहितः अधोरामः सामित्रः अधो राम इत्यथ रामः सा मित्रो वारुणः वारुणः पेत्वः पेत्व इति गोमृगस्ते गोमृग इति गोमृगः ते प्राजावत्याः प्राजावत्या आग्मेयौ प्राजाव्या इति प्राजावृद्याः आग्मेयौ कृष्णग्रीवौ कृष्णग्रीवौ त्वाष्ट्रौ कृष्णग्रीवामिति कृष्णाग्रीवौ त्वाष्ट्रौ लोमशसक्थौ लोमषसक्थौ शितिपृष्ठौ लोमशसक्साविधि लोमषासक्थौ शितिपृष्ठौ वारहस्पृत्यौ क्षितिपृष्ठाविधि शिलिपृष्ठौ वारहस्पृत्यौ धात्रे धात्रे पृषोदरः पृषोदरः सौर्यः पृषोदरैः पृषावधरः सौर्यो वलक्षः वलक्षः पेत्वः पेत्व इति पेत्वः अर्जेऽनीकपते अनीकपते रोहिताञ्जिः अनीकपतैज्जनीकापतेः रोहिताञ्जलिनड्वान् रोहिताञ्जलिति रथो रामौ सा वित्रौ रथोरामाविद्यधः रामौ सा वित्रौ वौष्णौ वौष्णौ रजतनाभि रजतनाभि वैश्वदेवौ रजतनाभीरि रजतानाभिः वैश्वदेवौ पिशङ्गौ वैश्वदेवाविदि वैश्वादेवौ पिशङ्गौ तूपरौ परो मारुतः मारुतः कल्माषः कल्माष आग्नेयः कृष्णः कृष्णोऽजः अजः सारस्वती मेषी मेषी वारुणः वारुणः कृष्णः कृष्ण एकशिलिपात् एकशिलिपात् प्रेत्व एकशिलिपादित्येकाशिलिपात् एक एक प्रे त्व इति प्रे त्वः ओ पञ्चमकाण्डे पञ्चमः समाप्तः